श्रीमद्भागवतमहापुराणं दशं स्कन्ध एकादशोऽध्यायः तथा यशोदारोहिण्यावेकं शकटमासिरे रेजतो कृष्णरामाभ्यां तत्कथा श्रवणो सुखे वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् तत्र चक्रुर्व्रजावासं सकृटैरसचन्द्रवत् वृन्दावनं यमुनापुलिनानिच यमुना पुलिनानि च भीक्षासीदुत्तमा प्रीतेराममाधवयोर्निप एवं व्रजौ कसां प्रीतिं यक्षन्तौ स्वकालेन बस्यपालौ बभूवतु अविदूरे व्रजभुव गोपालदारकै चारयामासतुर्वत्सां नानाक्रीडा परीक्षदौ क्वचिद्वादयतो वेणुं क्वचित क्वचित् क्वचित्पादैः किङ्कुणीभिः क्वचित् गित्री मगो वृषैः दिशाय माणौ नर्दन्तौ युधा ते परस्परम् अनुकृत्य ऋतैर्जन्तौ स्थिरे तु प्राकृतौ यथाम् कदाचियं नातीरे वर्षां चारयतो श्वकैः दयस्य हि कृष्णबलयोजिर्घासुसुहृदयत्यागमत स्तम्बस्य रूपिणं वीक्ष बस्य यूथ गतं भरिः दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् गृहीत्वा परपादाभ्यां शहलाङ्गूलमच्युतः भ्रामयित्वा कपिद्धाग्रहे प्राहिणोद्गतिजीवितं स कपिद्धैर्महाकाय पातिमानैः पपातः तं वीक्ष्य विस्मिता बाला स संसो साधु साध्विते देवासपरिसन्तुष्टा बभूवोपष्पभर्षिणः तौ पस्यपालकौ सर्वलोकैकपालकौ स प्रातराशौ गोवः सांचारयन्तौ विचेरतो संवत्सकुलं सर्वे पायिष्यन्त एकदा गत्वा जलाशयाभ्यासम् पायित्वा पपुर्जलम् ते तत्र सुरबालां महासत्त्वमवस्थितम् तत्र सुरभद्रनिभिन्नम् गिरे सिंहमिव चितम् स वैव को नाम महान्शूरो बकरूपदे आगत्य सहसा कृष्णं तिक्षतुण्डोग्रसद्बली कृष्णं महाम्बकग्रस्तं दृष्ट्वा रामादयोर्भकाः बभूरिन्द्रियाणीव विना प्राणं विचेतसः तं तालुमूलं तदहन्तम् अग्निवन् गोपालसूनुं पितरं जगद्गुरोहम् चच्छर्दं च्छर्द सद्योतिरुषाक्षतम्बक तुण्डेन हन्तुं पुनरभ्यपद्यत तमापतन्तं च निगृह्यतुण्डयोर्दोर्भ्याम्बकं कंससखं सतां पतिः पश्यस्य बाले सुदारलीलया मुदा बहो वीरण्युवौकशां तदाबकारिं सरलोकवासिन समाकिरन्नन्दनं मल्लिकादिभिः समिडिरे चाणक्यशङ्खसंस्तवै तद्वेक्ष्य गोपालसुता विसि स्मिरे मुक्तम्बका स्यादुपलभ्य बालका रामादयप्राणविवैन्द्रियो गणः स्थानागतं तं परिरभ्यनिर्मिता प्राणी अवश्यान् व्रजमेत्यज्जगो श्रुत्वा तद्विस्मृता गोपा गोप्यश्चा ते प्रियादिताः देत्यागतमिवौ सुक्यादैक्षन्तः दे अहो बतासि बालस्य बहवो मृत्यवोभवन् अभ्यासि विप्रियं तेषां कृतं पूर्वं यतो भयम् दर्शनाः दैव ते घोरदर्शनाः जिघांसि यैनमासाद्य नश्यन्त्यग्नोपतङ्गवत् अहो ब्रह्मविदां वाचोन्नासत्या सन्ति कर्हि चे गर्गो यदाह भगवान्नन्मभावि तथैव योगो इति कृष्णराम गोपाकृष्णरामकथां बुदा कुर्वन्तो रममाणश्च नाविन्दन् भवदे भववेदनाम् एवं विहारैः कोमारै कोमारं जयतुर्व्रजै निलाजने सेतुबन्धैर्मर्कटोद्लवनादिभिः ते श्रीमद्भागुते महापुराणे पारं चां चैतायां च संस्कन्दे पर्वार्थे वस्य बकुवधो नामैकादशोऽध्यायः